महापुराणे, हरि ओम् श्रीमद्देवीपुराणे श्रीमद्देविध्याय सृष्टो या सर्गरूपा जगदवनविधौ पालनीया च रौद्री संहारे चापि यस्य जगदिदमखिलम् क्रीडनम् या पराक्ष पश्यन्ती मध्यमाथो तदनु भगवती वैखरी वर्णरूपा सास्मद्वाचम् प्रसन्ना विधिहरिगिरिशा राधितालङ्करोतु नारायणम् नमस्कृत्य नरम् चैव नरोत्तमम् देवीम् सरस्वतीम् व्यासम् ततो जयमुदीरयेत् ऋषयऊ सूतजीव समाबह्वीर्यत्वं चरा वयसि हे कथा मनोहरा पुण्या व्यासुशिष्य महमते सर्वपापहरम् पुण्यम् विष्णो चरितमद्भुतम् शिवस्य चरितं दिव्यं दिव्यम् भस्मरुद्राक्षयोस्तथा सेतिहासञ्च मात्म्यम् श्रुतं तव मुखाम् भुजा अधुना श्रोतुमिच्छाम पावनात् पावनं परम् भुक्तिमुक्ति परम् न मनायासेन सर्वशे तत्सम्ब्रूहि महाभाग येन सिद्ध्यन्ति मानवः कलोऽपि परम् तत्तु न विद्म संशयच्छिरम् श्रोत उवाच तद् पृष्टम् महाभाग लोकानाम् सर्वशास्त्रस्य यत्सारं तद्वो वक्ष्याम्य शेषतः तावद् गर्जन्ते तीर्थानि पुराणानि व्रतानि च यावन्न श्रूयते सम्यक् देवी भागवतं नरै तावत् पापाटवे दॄणां क्वेदादभ्रकण्डका यावन्न परशु देवी भागवताभिधे तावत् क्लेशावहं नूनामुपसर्ग महात्मः यावन्नैवोदयं प्राप्तो देवि भागवतोष्णगौ ऋषयौचौ सुतसूत महाभागवदनो वदताम्बर कीदृशं तत् प्राणं हि विधि तत् श्रवणे चकः कटिभिर्वासुरे तत् श्रोतव्यं किञ्च पूजनम् कैर्मानवैष तम् पूर्वम् कान् कान् कामान् अवाप्नुयुः सूत उवाच विष्णो शोमुर्जात सत्यवत्याम् पराशरत् विभज्य वेदान् चतुरः शिष्या नद्यापयत् पुरा प्रात्यानाम् द्विजबन्धूनाम् वेदेश्वरनाधिकारिणाम् स्त्रीणाम् दुर्मेधसान्द्रूणाम् भवेत् विचार्यैतत्तु मनसा भगवान् बालरायणः पुराणसंहितां दध्यो तेषां धर्मविधिसया आच्चदस्य पुराणानि सकृत्वा भगवान् मुनिः माम् एवाध्यापयामास भारताख्यानमेव च देवि भागवतं तत्र पुराणं भोगमोक्षदं, स्वयम् तु श्रावयामास जनमे जय पूर्वम् अस्य पिता राजा प्रीक्षै तक्षकाहिना सन्दष्टस्तस्य संशुद्ध्यै राज्ञा भागवतं श्रुतम् नवभिर्दिवसे श्रीमद्वेदव्यासमुखाम्बुजात् त्रैलोक्यमातरं देवीं पूजयित्वा विधानतः नवाहयज्ञे सम्पूर्णे प्रीक्षैरपि भूपतिः दिव्यरूपधरो देव्या सा पितुर्देव्यां गतिं राजा विलोक्य जनमे जयः व्यासं परां मूलम् अवापः मध्ये सर्वोत्तमम् वरम् देवी भागवतं नाम धर्मकामासमोक्षदम् ये शृण्वन्ति सदा भक्त्या देव्या भागवतीं कथां तेषां सिद्धि दूरस्था तस्मात् सेव्या सदा दिनम् अर्धं तदर्धं वा मुहूर्तं क्षणमेव वा ये शृण्वन्ति नरा भक्त्या न तेषां दुर्गति क्वचित् सर्वयज्ञेषु तीर्थेषु शु सर्वदानेषु यत्फलं सकृत्पुराणश्रवणात्तत्फलं लभते नरः कृतादो बहवो धर्माकलो धर्मसु केवलम् पुराणश्रवणादन्यो विद्यते नापुरो नृणाम् धर्माचार्ल आयुषा नृणाम व्यासोहिताय विदधे पुराख्यम सुधारसम सुधाप्य बंदेक नर सैदरामर दिव्या कथा मृतम कुरियामरम मसा दीनायमो न सदाव्यम सदाव्यम दिवी भागवतम नरे आश्विने मधुमासे वा तापो मासेषु च तथा चतुर्षु नवरात्रेषु विशेषात् फलदायकम् अतो न वा हयज्ञोऽयम् पुण्यकर्मणः फलाधिक प्रदानेन प्रोक्त पुण्यप्रदो नृणाम् ए पापरता विमूढा मित्र द्रुहो वेद नवाह यज्ञेन पुनन्ति ते कलौ परस्वदाराहरणेति लुब्धा एवै नरा कल्मषभारवाज गो देवता ब्राह्मणभक्तिहीना नवाह यज्ञेन भवन्ति शुद्धा तोपोऽग्रैर्व्रततीर्थसेवने दाने अनेकैः नियमै मखै च उतज पैर्यच्च फलम् न लभ्यते न वाह यज्ञेन तदाप्यते नृणाम् तथा न गङ्गा न गया न काशी न नैमीशम् नो न पुष्करम् पुनातिसद्यो बधरीव नम्नो यथा हि देवी मखैव एव अतो भागवतम देव्या पुराणम् धर्मात् कर्म मोक्षाणाम् उत्तमम् साधनम् मतम् आश्विनश्च सिद्ध पक्षे कन्या राशि गते रवौ महाष्टम्याम् समभ्य च हैमसिंहासनस्थितम् देवी प्रीतिपदम् भक्त्या भागवत पुस्तकं सद्या विप्राय योग्याय स्वदेव्या पदवीम् लभेत् देवी भागवतस्यापि श्लोकम् श्लोकार्धमेव वा भक्ता यश्च पठेन्नित्यं च देव्या प्रीतिभाग् भवेत् उपसर्गभयं घोरं महामारी समुद्भवम् उत्पाता नखिला चापि हन्ति श्रवणमात्रतः बालग्रह कुतम्ब्यच्च भूतप्रेत कुतम्भयम् देवी भागवतस्या श्रवणाद्यातिदूरतः यस्तु भागवतं देव्या पठेत् भक्त्या धर्मम् अर्थं च कामं च मोक्षं च लभते नरः श्रवणाद्वासुदेवोऽस्य प्रसेनान्वेषणे गतम् चिरायितं प्रियं पुत्रं कृष्णं लब्धा मोदः य एतां शृणयाद्भक्त्या श्रीमद्भागवतीं कथां भुक्तिं मुक्तिं स लभते भक्त्या यश्च पठेदिमाम् अपुत्रो लभते पुत्रं दरिद्रो धनवान् भवेत् रोगीरोगात्र मोच्चेत श्रुत्वा भागवतामृतम् वन्ध्या वा काकवन्ध्या वा मृतवत्ता च आङ्गा देवी भागवतम् श्रुत्वा लभेत् पुत्रम् चिरायुषम् पूजितम् यद्गृहे नित्यम् श्रीभागवत पुस्तकम् पापनाशकम् पञ्चम्याम् वा यः पठे शृणुया वापि स सिद्धिम् लभते पराम् पठन् ऋजो वेद विदेग्रणि भवेत् बाहु प्रयातो धरणी पथि स्यात् वश्य पठन् वित्त समृद्धिमेति क्षुद्रोऽपि शृण्वन् सकुलोत्तमः स्यात् इति श्रीस्कन्दपुराणे मानसखण्डे श्रीमद्देवी भागवतमाहात्मे देवी भागवत श्रवणमाहात्मवर्णनम् नाम प्रथमोध्याय है